अथ पञ्चमकाण्डे तृतीयप्रश्नः प्रारम्भः देशयज्ञः किं वायितस्य क्रियते किं मानयद्वैरस्य क्रियमाणस्यान्तर्यन्ति पो यदि वास्य तदाश्विनेरुपदरात्यश्विनौ वै देवानां भिषजोताभ्यामेवास्मै भेषजङ्कराधिपञ्चोपदधातिपाङ्कयज्ञायावानेव यज्ञस्यस्मै भेषजङ्कराच्युतव्या उपदधाच्युनाङ्गीपञ्चोपदधातिपञ्च वा ेवन् कल्पयति समानप्रभृतया भवन्ति समानादक्षास्तस्मा समानाऋतव एकेन पदेन व्यावर्तन्ते तस्मार्तन्ते प्राणभृत उपदधात्युतष्वेव प्राणान् दधाति तस्मा समाना सन्द ऋतवोर्यन्त्यथ प्रजनयत्येवैनानेश वैवायुर्यत् प्राणाय ऋतव्या उपदाय प्राणभृत उपदधादि सर्वा मृतो नावलीवर्तिवृष्टि समीरपदधा जवृष्टिमेवावृन्ने यदे त्यादेकमृतं वर्षयदनुपरिहारकं साधयति तस्मात् सर्वानृतोनुवर्षति यत् प्राणवृद उपधाय वृष्ट्यधायुप्रत्युदादि वा वृष्ट्येत्ते पशवो वैव यस्या नानामनसः खलु वै पशवो नानावृतास्तेवाभि समनसोऽयं कामये तापु स्यादिव यस्यास्तस्योपधायापस्या स्मै पशुभिक्पराद्य पशुरेव भवति यङ्गामयेतपुमान् स्यादित्यवस्यास्तस्याय वयस्या उपदध्यास्मै पशुभिक्परादि पशुमानेव पुरस्तादपदधाति तस्माचत्वारि चक्षुषोरूपाणि त्वे शुक्ले ते कृष्णे मो धन्वते भवन्ति तस्मात् पुरस्तान् दक्षिणायागश्राण्यामुपदधाति पुरस्तात् पुरस्तात्प्राणः पशुर्पस्त्वय इति दक्षिणे गुंस उपदधाति कृष्णर्वय इत्युत्तरे गुञावेव प्रतिदधाति व्याभवये पक्ष उपदधाति सिंहावय इति पक्षेत्यन्दति पक्षय इति पशूनामधिपतिः न्द्राव्यधमानामिजस्व मातृर्णामुपदधादीन्द्राग्निभ्यां वा इवो लोको विधृता वनयो लोकयोर्विधृत्या धृते भवा एषायन्नमादिरन्तरिक्षमि भवा एषेन्द्राहेन्द्राग्नि वै देवानामो जतामोज सै वै नामन्तरिक्षेन्द्रे धृत्यै स्वय मातृर्णामुपधात्यन्तरिक्षं वै स्वय मातृणा स्वयमातृ प्राणा स्वर्गस्य लोकस्यानुक्षात् देवानां वै सुवर्गं लोकं यथा एतादिश्या अपश्यन्ता उपादध तथाभिर्वै ते दिशो दृढं हरयत्यस्या पुरस्तादपदधाति न भे पुरुषे प्राणामेव पुरस्ता धते प्राणास्योदिष्मतीति तस्मात् प्राणानाम् वाक्योतिरुत्तमादशोपदधाति दशाक्षरा विराट् विराट् छन्दसाञ्ज्यो दर्ज्योतिरेव पुरस्तात् धते शुष्वान् तस्मात् मार्हता पशुवत्यन्दे वा चन्द इति दक्षिणस्मात् दक्षिणावृतो पृथिवीछन्द इति पश्चात्पतिश्चिच्चदेत्युत्तरदरोनिराज एव उत्तरदधत्यस्मादुत्तरद विप्रया षट्त्रिगुंशत् सम्पद्यन्ते षट्त्रिगुंशदक्षराबृहदेवार्हता ृहत्यैवास्मै पशो न वरन्द्रहतीयन्दे गच्छति स्वारात्मा यत्पाय मोक्षा शिराडिति पुरस्तादपदधाति यन्त्रैराडिति पश्चात् प्राणादेवास्मै समे च ददाति देवा वै यद्यज्ञे गुर्वदुरा अगर्वदते देवा एताक्ष्णया सोमीयानोच्चान्यथोपादधुरानान्न वा यन्दतो देवा भवन्प्रादुर्व्याभवत्यात्मनापरादुर्वज्ञै त्रिवत्यज्ञ पुरस्ताद्व्या इति दक्षिणतान्नं दशामेव दक्षिणत दत्ते तस्मात् दक्षिणेनान्न मद्यते धर्म एकविंशतिरत ओज वै कान्त ओजः पञ्चदश ओज एव उत्तरतो दत्ते तस्मादुत्तरतप्रयायिने प्रतोत्तरष्टादशैस्ता इति दक्षिणतावृत्तान्नेव दक्षिणतोक्षिणेना विराजो यज्ञे प्रतिष्ठातेन विराजरेवाभिगौरवन्नाद्ये प्रतिष्ठते पुरस्ताद्वि त्यक्षरा गायत्रै गायत्रै यज्ञमुख्यज्ञमुखमेव पुरस्तात्पुंसैति दक्षिणतान्नम् पञ्चविपुंसान्नमेव दक्षिणताक्षिणेनान्नमद्यैष्वेव लोकेषु प्रतिष्ठति सम्भरणस्त्रय विपुंस इत्युत्तरतस्तस्मात् सम्भार्यंसैरस्तात् स्मात् दक्षिणोऽ लोको नागस्वर्गस्य लोकस्य समष्टे ृदक्षतो <laughs> ीति वै मित्रैवास्मिन्ध स्वा मैत्याः प्रतिष्ठा वा एकविकुण्डप्रतिष्ठो च इन्द्र ओज ऋष्णरोजः क्षत्रे तस्मादुत्तरीति त्याखञ्च दुर्विकुंश यज्ञमुखमेव प्रतिष्ठा वा प्रतिष्ठात्रै देवस्युत्तरतो ब्रह्म वै देवस्य ष्टो ब्रह्मवर्त्यसमेवोत्तरैतस्मात् ब्राह्मणाश्च यज्ञमुखं वै धृष्टामो ष्टाचत्वारि योगे सदे पुरस्तादुपदीयन्ते मुक्ष एव भवत्यापदे यतेजस्य प्रतिष्ठाव्योत्तरत ओ यस्यैव भवत्यायतेर्को वा एषतदेवस्तोत्रमेतच्छस्त्रैषाविधाय दैर्क एव तदर्ग्यमनुविधीयतेत्यन्न वा स्यान्नातोजाय देयस्यैता विधायते यथा दृष्टमेवावरुन्धेन वा इदन्निभाषणर्थमासेतव्या एताव्यष्टेरपश्यन्ता उपादध्यो देव्येवास्मा उच्छाता पुरस्तादपदधाति जातानेव प्रादुर् प्रणदते सहसा जातानिति पश्चाद्यमाणानेव प्रतिनुदते चतुश्चत्वारिंशस्तोम इति दक्षणतो ब्रह्मवत्यसंवे चतुत्वारि ब्रह्मवत्य ैतस्मात् दक्षिणा ब्रह्मवत्युत्तरषडवेषाड एवं मे मध्यमात्मनः सात्मानमेवा भवति एवंता वा असभत्नामेष्टकारमां वाचं वदति दश दशोपधाति तस्मादक्ष्णया पशोङ्गानि प्रहन्दि प्रतिष्ठित्यै या जैच्छन्दा न्दये देवासुवर्गन् लोकमायन्देनतान्येव यजमानस्वर्गल्लोकमे दैत्येन प्रजासुदा सोमभागैर्देवासुदयत्सोमभागाय प्रजा ृहस्पदर्पा एतद्यस्य तेजस्वस्वामभागा यत् बृहस्पदर्पा एतान्यज्ञस्य प्रतिष्ठामपश्च यत् स्वामभागा उपदधाति यज्ञस्य प्रतिष्ठत्य सत्त्व सत्त्वापदधातिष्ठत्ये ृतनाशाे ेव प्राणमदधात्यक्षर्व योधा इति प्रजा प्राणते पश्यन्ति शृण्वतीर्नमिथनेता सुत्रिवृधीत्येवमिथनमदधाता प्रजामिथनी भवन्तैर्न प्राजायदा सगोरोहासि निरोहासीत्येव प्राजनयत्ता प्रजा प्रजातानप्रत्यतिष्ठन्तापसुखो शिवेश्रीरशिवस्यष्टिरसि इत्येवकेषु प्रत्यस्थापयत्यदाहवसुको शिवेषु श्रीरशिवत्यश्च रसीति प्रजा एव प्रजाता येषु लोकेषु प्रतिष्ठापयत्मान्तरिक्षगोराणामुन्लोके प्रतितिष्ठत्यव्यधप्राणापानाभ्याम् भवति एवम् नाकसद्भिर्वै देवास्वर्गन् लोकमायन्तन्नाकसदान्नाकसत्त्वं यन्नाकसद उपददाति नाकसत्भिरेव तद्यजमानस्वर्गं लोकमेति स्वर्गो वै लोको नाको यः सीता उपदीयन्तेनास्माकं भवते यजमानायतनं वै नाकसद यन्नाकसद उपददात्यायतनमेव तद्यजमानः कुरुदे पृष्ठानां मा एतत्तेजस्संवृतं यन्नाकसद ेषादयति सादृगेव प्राणो वैश्वे प्राणञ्जैवायश्च प्राणानामुत्तमो दत्ते तस्मात् प्राणश्चायश्च प्राणानामुत्तमो नान्यामुत्तरामिष्टकामपदध्यात्यन्यामुत्तरामिष्टकामपदध्यात्मशोनां चेजमानस्य च प्राणं चायश्चापि स्वयमादुर्नामुपदधात्यसो वै स्वयमाधुर्नामोमेवोपधत्ते स्वमुपक्रामेति प्राणमेवास्यात्य प्राजापत्यैवाग्निञ्जन स्वयमाधुर्ना प्राणामुत्तुश्चोकस्यानुक्ष्यात्यानां विक्रान्तीयद्विघर्ण्यमुपदधाति देवानामेव विक्रान्तिक्रमद उत्तरद उपदधाति तस्मादुत्तरद उपजाति निर्वायम दे भाव छन्दागुषिपदधाति पशवो वै छन्दागोपशो नैवावरुन्धे छन्दागो षि वै देवानां वामं पशवो न वरुन्धयेतागो हवै यज्ञसेनश्चैत्रियागणश्चिं विदाञ्जकारतया वै सपशो न वारुन्धयते पशो नैवावरुन्धे गायत्रे पुरस्थापदधाति तेजो वै गायित्रि तेज एवमुदत्तेमोत्थन्वी भवन्ति मोत्थानमेवैनृष्ट पशवपशो भव दधायं वैष्टगेन्द्रियमेव पशवः पशवश्चे विशरूपमस्यैता उपधीयन् छन्दा वै सर्वाणि सर्वे देवेन छन्दो देवन्दाय दिच्छन्द समुपदधा दिवस्मै वैसमानाङ्गरादित्यपदादित्यपाद्यमानः प्रतिष्ठति ेवीयते यत् श्रीधानोपदध्याग्निं यत् उपदतात्मनैवेन सन्तत एवमेवेदाभिरग्निः सन्ततोग्निना वै देवा सुर्गं लोकमायन्ता कृत्तिकाभवनयस्थेता उपदीयन्ते स्वर्गमेव लोकमेप्रकाशञ्चित्रमेव ष्टका प्रदधा धीमेव लोकामण्डलेष्टका खलु वै लोका देव पुरा देव पुरा एव प्रविशदिनाञ्जिज्ञाना विश्वज्योतिषधा धीमानेवेताभिर्लोकाञ्ज्योतिष्मदः कुरुते प्राणानेवेता वै देवतास्वर्ग्यास्तादेवान्मारभ्य सुवर्गं लोकमेति ैपधाति वृष्टिमेवावरुन्धे कदोपध्यादेकमृतं वर्षेदनुपरिहारोन्वर्षति पुरोपेणैव वृष्टिमवरुन्धेवा इमान् लोकान् समयस्तत्संज्ञानीनागोसंज्ञानी त्वय्यसंज्ञानीरुपदधातिमान् लोकान्संयादि प्रयो ेषा उपदधाम्भोत्यै प्रतिपदन् देयारम्भोत्येदम्भो प्राप्नोत्यादित्येवत्ययोचते यथा सो देवा नागोरोचत एवमेवैषुष्या नागोरोचने घेष्ट उपदधाच्येतमे प्रियन्धामैन्धा परिवर्त्यमेवाजापतिरग्निमजाव्यार्थदशयता यशोदा अपश्यत्वा उपाधत्तथाभिर्वैशेष उपदधाति यश एव ताभिर्यजमान आत्मन्धत्ते पञ्चपदधातिपाङ्कपुरुषेव पुरुषस्तस्मिन् एष दधाति देवासुरासं यत्ताः सङ्कलीयागुंसो देवासन्सा देवा एता इष्टका पश्यन्दा उपादत्राक्षीति प्राजेन्निशमजन्द्रोद्धात्यन्तरिक्ष सदस्यन्धरिक्षे सीतेत्यन्तरिक्षमजयन्तरो देवाभवन् परासुरायश्चीतारुपदेयन्दे भूयादेव भवत्य ीमान्लोकान्य भवत्यात्मना परात्य हेदत्वाग्ने पृथिव्या स्वात्रयामीत्या हेमानेवेताभिर्लोकान् द्रविणावदकृता आयुष्या उपदधात्यायिरेवास्मिन्दधात्य ज्ञेयते परगोन्नामेत्या हेदत्वात्मै प्रियं प्रियमेवास्य नामो वा भावः इत्याह्येवैनेन परिधत्य पाञ्चजेष्वग्न इत्याहैशवाग्निः पाञ्चज्याय पञ्चजने माहत्तव्या उपदधात्यर्दोनाम् प्रियम् धामय धृतव्यार्दोनामेव प्रियम् इत्याहसंवत्सरस्यैव प्रियम् धामोदि प्रजापते रक्षस्व यत्तत्परापदत्तदश्वो भवत्यस्व यत्तदश्वत्त्वं तद्देवाश्वमेधेनैव प्रत्यजापतिको सर्वं करादिश्वमेधेनै सर्व एव भवति सर्वस्य वा एषा प्रायश्चित्तत्सर्वस्य भेषदिगो सर्वं वा एतेन वात्मानं देवादरन्नपि वा एतेन ब्रह्माद्यामदरन् सर्वं वा ब्रह्मत्या ुजेन वेदात्तरप्रजापदे रक्षस्व यत्तस्मादश्वस्योत्तर एवैनं प्रतिष्ठापयति चतुष्टोमस्तोमोरिवाश्चो मेनैव प्रत्युदधर्यच्चतुष्टोमस्तोमो भवत्यश्वस्य सर्व पञ्चमकाण्डे तृतीयः प्रश्नः समाप्तः